संश्राव्येण हमिषाजोमि रोपम् रोपम् वयो वयः संलग्धे नम् बलिश्वमिमम् जदश्रः प्रातिशावर्धयन्तु संश्राव्येण हमिषाजोहोमि सन्तापो हैमपादेश्रमोदय सन्धोत्स्याः सन्देशनिश्यदा वशमोदे सन्तुवश्याः सन्तापो धन्वन्या आश्रमोदे सन्त्वनोऽप्याः सन्देशरित्रिमापश्या कुम्भेभयाभृताः अनभयःखनमानाभिप्रागम्भेरे अपसाः भिषग्भ्याभिषक्तरा आप अच्छा वदामसि अपामः दिव्यानामपाम् स्वास्यानाम् अपामः प्रणे जने स्वा भव समाजिनाः का अप शिवा अपो यक्ष्मङ्गीरपः यथैव द्रव्यमयस्तास्तादुत्पथे शजेः विवस्त्रे शव्यास्तपर्यम् जेक्षात्पनस्पदेभ्योऽब्जोषाधेभ्यः यत्र यत्र विभेदो जातवे आस्ततस्तुतो सुषमानो नयेहि यातये अप्सुमाहिमायोवने सुयोषधेषु पशुष्वप्स्वा आन्तः ज्ञे सर्वा स्थन्वा सम्भ्रभस्वभाभिर्नयेत्रविनोदाजस्रः यस्ते देवेषु महिमा स्वर्गो जाते तनोपितृष्मा विवेश पुष्टिर्याते मनुष्येषु मप्राचे ज्ञेदया रयिमस्मासु धेहि सुत्कारणायकमये वेद्यायवचाभिर्वाकेरुपायामि रातिम् यथा भयमभायम् तन्नो अस्तमाचयमानायजहेड अग्ने शामाहोतिम् रथया मामसवायाजाताया हव्यमके न जातवेदायेताम् प्रथमोजो हवेदा ुप्तो वाहतो अव्यमग्निलग्नये स्वाहा आकोदिम् देवीम् सुभगाम् पुरोदधे चित्तस्य माता सुभवानोऽस्तु रामासा मेमिकेवलीशा मेऽस्तु विधेय मे नाम् मनसि प्रविष्ठाम् आकोद्यानो बृहस्पताकोद्यानमुपागहि अथो भगस्य नाधे ह्यथो नः सुहवो भव बृहस्पतिर्मागोदिमाङ्गिरासप्रदेजानातुवाचनेता यस्य देव देवता सम्बभो वः सुप्रणेताः कामोऽ त्वस्मान् इन्द्रराजाजगदश्चेनामधिक्षमिविशोरोप यदस्ति ्रामुपस्तुतश्चिदवाक् सहस्रबाहुः पुरोषत्सहस्राक्षःसहस्रवाक् स्वभूमिम् विश्वतो हृत्पाद्य तिष्ठद्दशाङ्कुलम् त्रिभिः पद्भिर्जामादो हादस्येहाभवत्पुनाः तर्थाव्यक्रामद्भिष्वङ्गशनानशने अनु कामन्तो अस्य माहिमानस्ततो विद्यायांश्च पूरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवि पुरोष एवेदम् सर्वै यद्भूतञ्यच्च भाव्यम् पुरामृतत्त्वस्येश्वरो यदन्ध्येनाभवत् सः यत्पुरोषम् यदथः कतिधाव्यकल्पयन् मुखम् किमस्य किम् बाहो कि भोरोपादा उच्येत ब्राह्मणास्य मुखमासेद्बाहोराजन्योऽभवत् मध्यम् दलस्य यद्वयश्च स्पर्भ्याम् श्रोत्रोऽजायत चन्द्रमामनसोजातश्चक्षोः सूर्योऽजायत मुखादिन्द्रश्चार्ण्यश्च प्राणाद्वायुराजायत भ्या आसीदन्तरिक्षम् सेष्णाभ्योः समावर्तत मद्भ्याम् भूमिर्दिशोत् प्राप्तथा लोकापयन् विराडक्लेशमभवद्गिराजोऽधिपूरोषः स जातोऽत्यातपश्चाद्भूमिपथो पुरः यत्पुरोषेण हविषा देवायज्ञपतन्वत सन्तोऽस्य सेदाज्ञम् ङेष्म यद्मः शरद्धभिः वै यज्ञम् प्रावृशा प्रावक्षन् पुरोषम् जातमग्रतः तेन देवाजगन्तसाध्यावसारश्च ये तस्मादस्माजायन्तये च केचो भयातः गावोहजग्रे तस्मात् तस्माज्जाताजापयाः तस्माद्यज्ञात् सर्वभुतर्कः सामानि जज्ञरे छन्दोहजज्ञरे तस्माद्यशस्तस्मादजायत तस्माद्यज्ञात् सर्वभुत सम्भेदम् दृषराज्यम् वशोम् सां सेवायव्यानारण्या ग्राम्याश्च सस्तास्या सम्परिधय देवायद्यज्ञम् बाला अपद्धन् पुरोषम् वशम् मूर्ध्वो देवस्य बृहतो अंशवः सप्तसप्ततिः राज्ञः सोमस्याजायन्तजातस्य पुरोषादधि चित्राणि साकम् दिविरो जनाने सृपाणि भुवाने जपानि तुर्मिषम् सुमतिमिच्छमानाहानिकेभ्यः स पर्यामिनाकम् सुहदमग्ने वृत्तिगालोहे ने चास्तो भद्रम् मात्रा पुनर्वशो सोऽकाचारुपुष्य भानुना स्वेशाय नम् मकामे पुण्यम् भोर्वा फल्कुन्योच स्तश्चित्रा शिवा स्वातिशुभो मेऽस्तु ृष्ठाः कुर्वताम् सुपुष्टिम् आमे महक्षतभेषामे द्वया प्रोष्टपदा सुशर्म आदेवते चास्वयुजोहरम् मामेयुम्भरन्यावाहन्तु यानि नक्षत्राणि दिव्या आन्तरिक्षे अप्सु भोमो यानि न केषु प्रकल्पयंश्चन्द्रमायान्ये च सर्वाणि मेतानि शिवानि सन्तु अष्टाविंशानि शिवानि शग्मानि सहयोगम् भजन्तु मे योगम् प्रपद्ये क्षेमम् च क्षेमम् प्रपद्ये योगम् च नमोहो स्वस्तितम् मे सुप्रातस् सायम्सो दिवम् सोऽषिकम् सो शकुनम् मे अस्तु सुहमग्ने स्वस्त्या आमत्यम् गत्वा पुनरदायाभिनन्दन अनुहवम् परिहवम् परिपादम् परिक्षवम् सर्वैर्मे रिक्तकुम्भान् परातान् सविदस्व अपपापम् वारिक्षवम् पुण्यम् भक्षीमहिक्षवम् शिवादे पापणासीकाम् पुण्याकश्चाभिनेहता हिमायाद्ब्रह्मणस्पते विशोचेर्वातगीरादे सर्धे चेरिन्द्रता कृत्वा मह्यम् शिवतामास्तु स्वस्ति न अस्त्वभायन्नास्त्व नमा रात्राभ्यामस्तु सान्ताद्योः शान्ताप्रेशिवे शान्तमिदमुर्वान्तरिक्षम् शान्तावो तन्वते रापः शान्तानः सन्तोषाधेः शान्ताने पूर्वरूपानि शान्तन्ना अस्त्वकृता कृतम् शान्तम् भोगम् च भव्यम् च सर्वमेव शमस्थुनः येन पारमेष्ठिनेवा देवे ब्रह्माशंसिताैव सृजघोरम् तयैव शान्तेरस्तु नः इदयः पारमेष्ठिनम् मनोभाम् ब्रह्म संसितम् हिमालयानि <Sansimitation> पञ्चेन्द्रियाणि मनःषष्ठानि मे हृदि ब्रह्मणा संशीतानि ले लय भोरम् दे नेवशान्ते रस्तुलः शण्णा मित्तर्षम् मरोणः शम् नष्टः शम् प्रजापतिः शन्न इन्द्रा बृहस्पतिः सन्ना भवत्पर्यमामित्तर्षं वरो णः उत्पाताः पार्थे वान्तरिक्षाः शन्नादिविचाराग्रहाः षण्णा भो निर्व्याप्यमाना च मुल्का सञ्जर सङ्गाभोमो हि नक्षेराश्रम्भोमेरवतेर् नक्षत्रमुल्काभिः सम्भः पुनः सन्नाभिचाराश्रमोऽ षण्णालिखादावलकाश्रमल्कादेशोपसर्गाश्रमो न भवन्तु सन्नाग्रहाश्चार्गमासाश्रमादित्यश्च राहुणा षण्णा मृत्युर्धोमये तुद्रास्तिग्मदेजसः स्वृद्रा शंवसा वश्यमादित्याश्वमग्नयाः शण् महर्षयो देवाशम् देवाश्यम् बृहस्पतेः ब्रह्म प्रजापा निर्धाता लोकभेदाः सप्तऋषयोगयाः तैर्मे कृतम् स्वस्य यानमिन्द्र मे शर्मा यच्छतु ब्रह्मा मे शर्मा यच्छतु विश्वे मे देवाः शर्मा यच्छन्तु सर्वे मे देवाः शर्मा यानि कानि लोके सप्त ऋषयो विदो सर्वा निजम्भावन्तु मेशम् मे अस्तु भायम् नास्तु पृथिवेषाम् तेरन्तरिक्षम् साम् दर्जो शान्तिपश्चान् तिनोषाधयः भिः साम् तेभिः सर्वशाम् तेभिः समायामोहञ्यदिह घोरञ यदिह क्रोरञ यदिह पापम् दच्छान्तम् दच्छिवम् सर्वामेव शमस्तु नः शृङ्गलिङ्गाग्ने भगवतामवोभिः सन्नयिम् रामलोणाराधाव्या श्रमिन्दासोमाः सुमितायशय्यः शण् इन्द्राः पोषणावाजा सातौ छण्भः शमो नः शंसोः अस्तु छन्नः सुयमस्य शंसः शन्नो अस्तु शण्णो धाता संरोदसे बृहते षण्णाहद्देवानाम् सुहवानिषन्तु शण्णाः अग्निरनेको हस्तु षण्णाः मित्रावलो नावश्विनाशम् शन्नः सुकृताम् सुकृतादेशन्तु षण्णादिशियोभवाताः सन्नाद्यावाः पृथिवीपो महो दोषमन्धरक्षम् द्विषये नास्तु शन्नवोषधे ध्वनिना भवन्तु शण्जसर्वतेरस्तु लक्ष्णुः शन्नरिन्द्रोवसोभिर्देवोऽस्तु शमादित्यैभिर्वतोणः सुशंसाः सन्ना हृद्रानुद्रेभिर्जलाः शन्नस्त्वष्ठाज्ञाभेरिहर्षृणोतो सन्नः सोमा भवतु ब्रह्म शन्नः शन्नो द्रावाणः समोऽसन्तु यज्ञाः छण्णस्वरोणाम् विदयो भवन्तु छन्नः प्रस्वाश्रमस्तु वेदे शन्नः सूर्यमुरुचक्षामुदे द्विषन्ना भवन्तु प्रादिशतस्रः चन्नः पर्वताध्रुवयो भवन्तु छन्नः सिन्धरवश्रमो सन्तापाः षण्णादेतरभवदौ व्रदेभः सन्ना भवन्तु मरदः छन्नाविष्णः समो मोषा नास्तु सन्ना भविषम् वस्तु वायुः सन्ना देवः स पिता प्रायमाणः सन्ना भवन्तोषसा विभातेः शन्नः पर्जन्या भवतः प्रजाभ्यः सन्नक्षेत्रस्य पदेरस्तु शम्भः सन्नः सत्यस्य पदयो भवन्तु सन्नाहन्तः समोऽ सन्तु गावाः सन्नानुभवः सुहृदः स्वहस्ताः शन्ना भवन्तु पितराहवेषु षण्णा देवा विश्वदेवा भवन्तु संसदस्वदेधादेभिदस्तु समाभिषाचः समोराधिशाचः शन्ना दिव्याः पार्थि वा शन्नाप्याः सन्नाजये कार्थोऽस्तु शमहिर्बुध्या शंसमुद्रः सन्ना अपान्नवाष प्रृष्ठर्भवतु देवगोपा आदित्या रुद्रावसेवो दृषन्तामिदम् ब्रह्म क्रियमाणन्नवीयः सन्वन्तो दिव्याः पार्थे वा सोऽ गोजाता उदये यज्ञियासा ये देवानामृत्युजा यज्ञिया सोमनास्मिशत्रामृता सज्ञाः राजन्तामरुगायमद्ययोऽयम् वाहदस्वस्तुभ्यश्च नः प्रतरस्तु मेत्रावरुणा तदग्नेशयोरस्मभ्यमिदमस्तु शस्त्रम् अशेमे गाधमुदत्रिष्ठान्नमो दिवे बृहते सादनाय उषा प्रस्वशस्तमस्संवर्तयति वर्तनेशो जातता अयावाचम् देवहे कम्फले मम दे मसहे मा सु इन्द्रस्य बाहोस्थ वे मौ वृषाः नो चित्तावृषभौ वारयिष्मो योक्षय प्रथमो योगागतेयाभ्याम् जिलमसूराणाम् स्वार्जुत् आशुषुषा नो वृषभो सङ्क्रन्दनानि मिषये कबीरः शतं धेन अजयत्साकमिन्द्रः सङ्क्रन्दनेनानि मिषेन धृष्टुना योद्धेन दृष्टबलेन धृष्टुना वदिन्द्रेण्युधो नो हस्तेन मृष्णा सरीशो हस्ते सरीशङ्गभिर्वशी सम् गणेन सङ्ख्यष्टचित् सोमपाषभ्योग्रथम् आप्रदेहिताभिरस्तात् बलविज्ञायः सवेरप्रवेरः सह स्वात्माजे सह मान उग्रः अभिहेराभिषत्वा सहोऽजिजैत्रथादृष्टगोवितन् इमम् वेरमनोहर्षध्वमीरमेन्द्रम् तथा या न संवरभ्वम् म् गोचितम् वच्वाहञ्जयन्तमज्मप्रमणन्त अभिगोत्राणि सह साकाः मानो धायमुग्नः शतमम् निलिङ्गाः दुश्च वनप्रतनाषाढा योध्योस्माकम् सेनावत प्रयुत्सो नरःपरे परे छत्रोन् क्रमणन् निमित्ता पाकमेऽध्यपिता तनूना इन्द्रेता बृहस्पर्ध्यक्ष्येनानिज्ञः पुरये हेतुसोमाः देवसेनानामभिभञ्जतेनाम् इन्द्रस्य वृष्टावरोणस्य राज्ञाः आदित्यानाम् मरुताम् अस्माकमेन्द्रः समृतेषु भजेश्वस्माकैयायुष वस्तायन्तु अस्माकम् देनामुक्तादय भवन् अस्मान् देहे वासोपताहवेश इरमक्षयो वसा नमाकान् क्षिपे मे द्यावाभूता अस वत्ता प्रतिशो मे भवन्तु न यथा इन्द्रभयामहेततो न अभायम् कृधे मधावन्सभ्यमत्पन्नारोचर्विद्विषोऽविमृधोजिः इन्द्रम् वयमानो राधास्मद्विपदा चतुष्पदा बालस्येनाररुषेरुपागुर्विषो चेरिन्द्रद्रोहो विनाशय इन्द्रस्तातोदवृत्राः परस्फ्वानो वरे अन्यः स रक्षिताचारमदः समध्यतः पश्चात्स पुरस्थान्नोस्त्व पुरन्नो लोकमनो नेष विद्वान् स्वार्यजो जलभायम् स्वस्थे उग्रादायङ्गस्थमेलस्य बाहोपक्षयेम शरणन्ताः अभायम् न्यन्तरिक्षमभायम् जावाः अभायम् पश्चादभायम् पुरस्ताहादुत्तरादधनादभायन्नास्तु अभायम् मित्रादभायममित्रादभाये ज्ञातादभायम् पुरोयः अभायन्नमभायम् दिवाः नः सर्वा शापममित्रम्भावन्तो असपत्रम् पुरस्ताहत्पश्चान्नोऽभायम् नित्या रक्षन्तु भोम्या रक्षन् रक्षताम् पुनस्तारभिदः यक्षतारश्चेरज्ञा रक्षतु धातवेदाभूसकृतो मे सर्वतः सन्तु वर्म अग्नवतो पुरस्तात्तस्मिन् कमेकस्मिन् स एताम् पुरम् वैमि समाः रक्षत समाः गोपाय दुतस्मात्मानम् बले दधे दु स्वाहा वायुमान्तरिक्षय नैकस्याः दुषपाः तु तस्मिन्नमेकस्मिन् क्षयेताम् पुरम् प्रेमि समाह रक्षत समाः गोपाय दुतस्मात्मानम् बले दधे दु स्वाहा सोमो मा रुद्ध्रे दक्षेनाय ऋषप्पादुतस्मिन् क्रमेकस्मिन् सयेताम् पुरम् प्रैमि समारक्षतु समागोपाय दुतस्मात्मानम् प्रदीरते स्वाहा करोणो मादित्येवेतस्यादिषप्पादुतस्मिन् क्रमेकस्मिन् सयेताम् पुरम् प्रैमि समाः रक्षतु समा गोपाय दुदस्मा आत्मानम् बले तदे स्वाहा सूर्यो मात्या वा पृथिवेभ्याम् पृथेच्च ऋषःपादुतस्मिन् क्रमे तस्मिन् स्विन शयेताम् पुरम् प्रैदि समा रक्षतु समा गोपाय दुदस्मा आत्मानम् बले तदे आपोपोष देवतेरेतस्याधिशः पान्तु दासु क्रमेतासुश्चयेताम् पुरम् प्रेमि तामा रक्षन्तु तामा गोपायम् तु ताभ्य आत्मा नम् भरेतरे स्वाहा विश्वकान्मा सप्तऋषिभिरदेत्याधिशः पातुरस्मिन् क्रमेकस्मिञ्चताम् पुरम् प्रेमि समाः रक्षतु समाः गोपायतु तस्मात्मानम् प्रेदथे स्वाहा निन्दो मा द्विषप्पा तु तस्मिन् प्रमेतस्मिन् न एनाम् पुरम् प्रेमि समाः रक्षतु समाः गोपायदस्मा आत्मानम् प्रमेतथे स्वाहा प्रजाप धर्मा प्रजननवान्सः प्राधिष्ठायाः ध्रुवायाः ऋषप्पाः ध्रुवस्मिन् क्रमेतस्मिन् च एताम् पुरम् प्रेमि समाः रक्षतु समाः गोपाय दुदस्माः आत्मानम् समारक्षत समाः गोपायत तस्मात्मानम् वलीर स्वाहा अग्निम् देवसो मन्दमिच्छन्तु ये माघायप्रात्यादिशोऽभिदासात् मायन्ते हेन्दरिक्षवन्तमिच्छन्तु ये माघायमा एतस्यादिशोऽभिदासात् सोमम् ते वृक्षवन्त पृच्छन्तु ये मा गायवो दक्षिणायादिशाभिदासात् वरोणन्दादित्यमन्दच्छन्तु ये मा गायव एकस्यादिशाभिदासात् सूर्यम् देत्यावात् शिवेमन्दन्तु ये मा े मा घायव एतस्यादिशाभिदासात् विश्वकर्माणन्ते सप्तऋषिवम् तमुच्छन्तो ये माघायौरे चादिशाभिदासात् इन्द्रन्ते मरुत्वम् तमुच्छन्तो ये मा घायवोऽध्रुवाया दिशाभिदासात् बृहस्पतिन्दे विश्वदे भवन्दो हे मा घायवा ऊर्ध्वायाः दिशाभिदासात् मित्रप्रचं व्याधर्क्रामर्ताम् पुरम् प्रणायामिव आमावेशत साम् ध्रुवेशतसामशर्मा च िरन्तरिक्षेणोदर्कामत्ताम् पुरम् प्रणयामिव कामावेशत हताम् प्रवेशत असा वः शर्मा च वर्मा जयच्छतु सूर्यो दिरोदर्कामत्ताम् पुरम् प्रणयामिव कामावेशत हताम् प्रवेशत असा च वर्मा जयच्छतो चन्द्रमानक्षत्रेण कामत्ताम् पुरम् प्रणयामिवः कामामेशत ताम् प्रवेशत स वः शर्म च वर्म चेच्छतो सोमवोषाधेभिरद क्रामत्ताम् पुनम् प्रणयामिव कामामेशत ताम् प्रवेशत सा वः शर्म च वर्म चेच्छतो यज्ञालक्ष्येण समुद्रानतेभिरदर्कामत्ताम् पुरम् वृणयामिव कामावेशत असामः शर्मा च अवर्मादेच्छतु ब्रह्म ब्रह्मकारिभिरदर्कामत्ताम् पुरम् वृणयामि वः कामावेशत साम् प्रवेशत असामः शर्मा च अवरुमादेच्छतो इन्द्रागेर्ये मावेशद साम् प्रवेशदावः शर्मा च पर्माजयच्छतु देवामृतेनोदक्रामारम् प्रणायामिव माम् प्रवेशदर्मा च अपर्माजयच्छतु प्रजापाधिप्रजाभिरदक्रामन्ताम् पुरम् प्रणयामिव मामावेशत साम् प्रवेशदर्मा च अपर्माजयच्छतु अपन्यसम्पौरोषेयम् अध्ययन् राज्ञी धाता सिता बृहस्पतेः स्वमोराजावलोणोऽ यमः कोषात्मान् परे वासुमत्योः याने चकार भुवालस्य यः प्रजापनिर्मातस्वाः प्रजाभ्याः प्रदिशो यानेव च दिशक्षे कर्माणि तु सन्तो यस्ते तनोऽस्वलक्यन्तदेवाधीराजयोधेहिनः इन्द्रायच्छत्रयवर्म तदस्मान्वाह विश्वदार्म मे द्यावाकृषिवे सूर्याः वर्म मे विश्वे देवा मात्मावत्प्रतीचिका गायत्रो स्निष्टो द्रेहदे पङ्क्तिस्कृष्टौ जगाति आङ्गिरसानामान्ये पञ्चानुवाते स्वाहा षष्ठाय स्वाहा स्वाहा मेलनखेभ्यस्वाहाभ्यस्वाहाभ्यस्वाहा पर्यायिकेभ्यः स्वाहा प्रथमेभ्यः सङ्ख्येभ्यः ख्येभ्यस्ताः तृतीयेभ्यः सङ्ख्येभ्यस्ताः गोत्तनेभ्यस्ताः ऋतनेभ्यस्ताः उत्तमेभ्यस्ताः ऋषेभ्यस्वाः शचिभ्यस्वाः गणेभ्यस्वाः महागणेभ्यस्वाः सर्वेभ्यङ्गीरोऽभ्याविदगणेभ्यस्वाः ्राभ्याम् स्वाहा ब्रह्मणे स्वाहा ब्रह्म ज्येष्ठा संहृदा वीर्याणि ब्रह्माग्रे ज्येष्ठम् दिवमाददान भोदानाम् ब्रह्मा प्रसमोदजज्ञेपेनारमणा स्पर्धेतुङ्गः आशर्वणानाम् चेभ्यस्वाहा अष्टर्चेभ्य स्वाहा भवर्चेभ्यस्वाः दशर्चेभ्यस्वाः एकादशर्चेभ्यस्वाः द्वादशच्चेभ्य स्वाहा त्रयोदशर्चेभ्य स्वाहा सप्तदशर्चेभ्यस्वाः अष्टादशर्चेभ्यः स्वाः एकोनविंशति स्वाहा विंशति स्वाहा महत्काण्डाय स्वाहाभ्यस्वाः एकाभ्यः स्वाः क्षुद्रेभ्यः स्वाः एकादशेभ्यः स्वाः भ्याम् स्वाहा विशासह्ये स्वाहा मङ्गलिकेऽर्घ स्वाहा नक्षत्रकल्पाय स्वाहा वैतालकल्पाय स्वाहा शान्तिकल्पाय स्वाहा आङ्गिरसकल्पाय स्वाहा सम्भृतापितये स्वाहा ब्रह्मणे स्वाहा ब्रह्मज्येष्ठसम्भृतावीर्याणि ब्रह्म भूतानाम् ब्रह्मार्धसमोदयज्ञेतेनाभेस्पर्धेतुम् कः येन परे देवाधारयन्ेमम् ब्रह्मणस्पदे परे राष्ट्राय धत्तन फलेममिन्द्रमायोषे महे क्षत्राय धत्तन यथैनम् जलसे नयान्तोक्षत्रेधेजागरत् परेमम् सोम माजोषे महे श्रोत्रायधर्तन यथैनम् जलधे लयान्त्योक् श्रोत्रेऽधीजागरत् फलेधर्तधर्तनोऽवर्चेमम् जलामृत्युम् कृणत दीर्घमायोः बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे फलेधातवावो जरान्तुरच्च परेधत्स्व वासो भवामभिजस्तिपावो शतम् चैव झलदः पुरोचेरायश्च पोषमुपसंज्ञायस्व परेदम् वासोऽधि स्वये भोर्वापे नामभिजस्तिपावो शतम् चैव झलदः पुरोचेर्वसोऽधिकारर्विभाजासि जीवन् योगे योगे बाजे बाजे तमस्तरम्बाजे वाजे हवामहे सखायेन्द्रमोदये गिरण्यमरणोऽजरस्वीरो जरावृत्य प्रेरसंवेशस्व प्रतो सोमाःस्पतिः सवेदाननिन्दाः अश्रान्तस्य त्वामुना सायुरज्ञप्रथामस्य च उत्कोलमद्भवा प्रतीधावतात् अग्रे प्रजातम् वरे यद्धिरण्यमृतम् दद्धेऽधिमर्जनर्पदीरे नरा भवति यो विभक्ति यद्धिरण्यं सूर्येन सुवर्णम् प्रजावन् इसिरे तत्त्वा चन्द्रम् वर्च सा संसृज्चायुष्मान् भवति यो विभक्ति आयुषे त्वावदशेत्तोदशे च पदाय च यथा हिरण्यदे चिभासाजभाव यद्वेदना चावदो नो वेद देवो बृहस्पतेः इन्द्रो यत् मृत्वा वेद दत्वा आयुष्यम्भुवत्तत्ते गोभिष्वापादृश भोषा त्वा पातु वादिभिः वायुष्वा ब्रह्मणापात्विन्द्रस्त्वापात्विन्द्रियैः त्रिवृतम् स्तोमम् त्रिवृतापाहुस्तास्त्वा रक्षन्तु त्रिवृता त्रिवृद्भेः त्रेन्नाथां स्त्रेन् स मुद्रां स्त्रेन्ब्रह्नां श्रेन्वयेष्वपान् त्वेन्मादलिष्मा नष्टेन् सौर्यान् गोत्रेन्द्रयामि च धृतेन त्वा समोक्षाम्यज्ञाज्येन वर्धयन् अग्नेश्चन्द्रस्य शूर्यस्य मा प्राणम् मायिनो दधन् मावः प्राणम् माव पाणम् माहलो मायिनो दधन् राजम् द्वा विश्वलेन नो देवादैर्ये आयोधायुक्ताम् देवायुष्माञ्जेव मामृथाः प्राणेणात्मन्वताम् जेवा मामृत्यावृतावशम् देवानाम् निहेतम् विधेयन् नाम् रमेन्द्रपतिभिर्जैव जानेः आबोहरन्यप्रवद्भ्यस्तास्ता रक्षन्त प्रवृता प्रवृद्भेः प्रयस्त्रं सद्देवतास्त्रेदेकवीर्याणि प्रियायमाणाजुगुपुरप् स्वा आन्वः अस्मिंश्चन्द्रे अधियद्धिरन्नन्द्रेणाजम् क्रेणवद्वीर्याणि एतेवादिकादशष्ठते देवाहोहरिजञ्जोषध्वम् एतेवान्वृक्ष एकादशष्ठते देवासोहविदञ्जोषध्वम् ए दे वा स्पृचर्यामेकादशस्थे देहो हरिजोषध्वम् प्रहवत्यम् बृहस्तात्पश्चान्नोभयम् कृतम् सवितामालक्षिणा तमुत्परान्मा च देवतेः विवमादित्या रक्षन्त भौम्या रक्षन्तग्न्याः इन्द्राग्ने रक्षताम् मा पुरस्तादृक्ष्या बतः शर्मा यरश्चे नज्ञानक्षत जातवेदाभूतकृतोः मे सर्वतः सन्तु मर्म इमम् वद्धामि ते मणिम् देयद्घायुत्वायते जे दर्भम् सपद्मदम्भन् विषादस्तपानम् हृदः विशादस्तापयन् हृदः शत्रो नाम् तापयन्मनाः गुरुहाग्रः सर्वाम् स्वाम् दर्भशर्मयी धर्म एवाभिषवन्दर्भद्विषतो निषपन्मणे हृदयः सवर्तानाम् भिन्नेन्द्रायो विलोचम् बलम् भिन्धिदर्भदपत्तानाम् हृदयम् द्विषताम् मने उद्यान्प च विभोम््याशिरा येषाम् विवादय भिन्दिदर्भदपत्तान्मे भिन्दि भिन्दि मे सर्वान् दृहार्दो भिन्दि मे द्विषतो मने छिन्धिदर्भत वर्तान्मे छिन्धि मे वृदनायातः छिन्धि सर्वान् द्रोहार्दान् छिन्धि मे मने वृष्ठ्यदर्भत वर्तान्मे वृष्ट्य मे वृदनायातः वृष्ठ्य सर्वान् गृहार्दो वृष्ठ्य मे मने न्मे वृदनाजातः कुञ्च मे सर्वान् द्रुहार्दान् क्रञ्च मे द्विषतो मने त्रिंशदर्भसपर्णान्मेंश मे पृदना जातः द्रुहार्दः प्रिंश मे द्विषतो मने मे पृदना जातः विध्या सर्वान् द्रुहार्दो विध्या तोमाने निक्षागर्भ समर्थान्मे निक्षा मे पृतनायातः निक्षा मे सर्वान् दुर्हार्दो मिक्षा मे द्विषातोमाने रुन्धिगर्भ समर्थान् मे वृन्धि मे पृतनायातः सर्वान् दुर्हार्दान् वृन्धि मे द्विषातोमाने रुन्धिगर्भ समर्थान् मे रुन्धि मे बृन्धि मे सर्वान् दुर्हार्दो बृन्धि मे द्विषतोमाने मे मृण मे पृतनायातः सर्वान् दुर्हार्दो मृणमे द्विषतोमाने मन्थदर्भतपत्नान् मे मन्थ मे पृतनायातः सर्वान् दुर्हार्दो मन्थ मे पिण्डि दर्भ सपत्नान् मे पिण्डि मे वृतनायातः पिण्डि मे सर्वान् गुरुहार्दः पिण्डि मे द्विषतोमाणे वोषदर्भसपत्नान् ववोष मे वृदनायातः वोष सर्वान् गुरुहार्दवोष मे द्विषतोमने दह दर्भसपत्नान्मे दह मे वृदनायातः वः मे सर्वान् गुरु विषतो माने यस्ते दर्भचरामृत्यः सदम् वर्म स वर्म ते तेनैवम् वर्मिणम् कृत्वा सपत्नान्ये वीर्यैः शतन्ते दर्भवर्माणि सहस्रम् वीर्यानि ते त्वमस्मै विश्वे त्वाम् ्रह्मनस्पतेः पाणिन्दस्याहुरपरम्भ त्वम् राष्ट्राणि रक्षते सर्वत्र क्षयानम् दर्भद्विषदस्तपानम् हृदः मणे क्षत्रस्य वृक्षानन्द्रमोपानम् गृणोमि च रक्षमुद्राभ्यर्करम् तत्तर्जन्याभिद्यता सह ततो हिरण्ययो बिन्दस्तजायत औगम् परेण मणिः मृष्टिकामाय मेधसा पशोनाम् सर्वेषाम् स्वातिम् गोष्ठर्मे सविताकारत् यौनाज्ञः प्रत्यक्षशो नामधिपासत् औगम् परामृषा मणिः समासृष्ट गृहे औदम्बरस्य च साधाता पुष्ट्यम् दधातुमे यद्विपाच्च चतुष्पाच्च यान्यन्नान्यसाः गृह्णे त्वे येषाम् भोमानम् बिभ्रदौतम् बलमणिम् पुष्टिम् पशूनाम् परे जग्रभाम् धान्यम् वयः पशूनाम् समोषधीनाम् बृहस्पदश्च विधा मे नियच्छात् अहम् पशो नामये पुम् पुष्पणिर्दधातु मह्यमौदम् वरो मणिद्रवीणानियच्छतु उप अमौदम् वरो मणिप्रादया च धनेन च इन्द्रेण जिन्मितो मणिरामाजम् श्रावच्च देवो मन्यश्चापत्नः धनथा धनाधातये असारन्नस्य भौमानङ्गवान् स्वादर्जयच्छतु यथाग्रे त्वम् वा नष्ट्या सह जग्निषे देवाधनस्य मे स्फालिमादधातु दे मे धनम् सरस्वदे पयस्फालिम् जधान्यम् शिने भाज्युपावहादयन् सौदम् मरो मणिः त्वम् नामाधिपावृशासि त्वये पुष्टम् बुछ्चा पुष्टवसर्जान पयीमे वाजा द्रवीणानि सर्वोदुम् वरः सत्त्वमस्मत्साहस्वागराजमृतम् श्रुतम् च ग्रामणेरासि ग्रामणेरुत्थायाभिषिक्कोऽभिमाचिञ्च सा हेजो तेजोमये धारयाधिरीराशिरयिम् मे पुष्टेरसिष्ट्यामासमङ् गृहमेधे गृहपादि औदम्बरः सत्तामस्मासो हिरयिनः सर्वेरम् नियच्छराय स्पोषाः जप्रते मञ्जय अहम् त्वाम् अयमौदम्बरो मणिर्वीरो वीराय बध्यते सरः सनिम् मधो मते कृणो दुरयिञ्चरणः सर्व वीरम् नियच्छात् सहस्रापर्णवक्तिरः गर्भोजमुद्रवोषाधिष्ठन्ते बद्धाम्यायोषे नास्ति केषाम् प्रबापन्ति नोराधिताघ्नते यस्माच्छिन्नपर्णेन गर्भेन शर्मा यच्छसि द्विरे तोरमोषधे पृथिव्यामा स निश्चेतः त्वया सहस्राकाण्डेनाय प्रवर्धयामहे ृगा त्वयाहम् दुर्हार्दपाहनस्विसहस्वान् उभौ सहस्वम् तौ भूत्वा सपत्नान् सहि जी नहि सहस्रनाभिमादिम् सहस्रवृदना यः सहस्वसर्वान् दुर्हार्दस्वार्दो मे भोन्गृधे तर्धेन देवजा तेन दिविष्टम्भेन शश्वजिज तेनाहम् शश्वतोमादर्भकरणब्रह्मराजन्याभ्याम् श्रोत्राय चार्याय च यस्मै च कामयामहे सर्वस्मै च प्रियश्योजायमानपृथिवेम् हत्याम् दिवम् च यम् विभ्रातम् ननुपाप्मा वे वेद नोऽयम् दर्भोपरो नोऽधिकाः समग्रः शतकाण्डसहस्रानौषधीनाम् प्रथामस्तम्बभूव समायम् दर्भ परे पातु विश्वतस्थेन साक्षी अपृतनापृतज्ञातः सहस्रार्घशतकाण्ड स नायम् दर्भः परे मातु विश्वतोः देवो मणिराजो सा संश्रेजातिनः विषादुल्लब्धो मान् पयस्वान् भोमि ब्रह्माच्चोदस्थापयिष्णो नु तान् सतज्ञानधाराम् सन्वन् दर्भारोऽह महतामिन्द्रियेण त्वम् भूमिवर्त्येश्व च सात्वम् वित्रमुषा यो भरम् तत्त्वम् बोनेः कृता न्यस्पत् तेक्ष्म राजाविशास हि रक्षोः विश्वदर्शनिः भोजो देवानाम् बलमुग्रमेतन्तेः वध्नामि जलस स्वस्तये तद्भेदत्वम् कृणवद्भीर्याणि दर्भम् व्यभदात्मनामा व्यासृष्टाः यावच्चिवादिश्छतस्रः जङ्गिडासि जङ्गिडा रक्षेदासि जङ्गिडः विप्राच्चतस्तादस्माकम् सर्वम् रक्षतु जङ्गिडः यागृत्स्य स्त्रे पञ्चाशे शतम् कृत्याकृतश्च ये सर्वान्फलकृते च सारसाम् रसम् कृत्रिमन्नातमारासाः सप्तविश्वासः अपेतोजम् गिडामात्रिविषमस्तेवशादय कृत्या दोषा न एवायमथो हा दोषाणः अथोऽसहस्ताम् जङ्गिणः प्रणायोम् शिरादिशत् स जम् गिडस्यामहिमाबलेनः पातु विश्वताः तिष्ठन् धैर्येना सा सह संस्कम् धर्मो जोचसा दृष्ट्वा देवा जलयन्निष्ठेदम्भो ज्ञानधे त्वमुक्त्वा राजिब्राह्मणा पूर्व्यवेदो न स्वापोर्वा वोषधयो नत्वादरन्तिः विबाधमुक्तोिणः परविपालः स्वमङ्गलाः अथो पदानभागवातम् ग्रीडाभीतवेर्य पुरात उग्राग्रासदारेन्द्रो वीर्यम् ददौ उग्रयित्ते मलः पुर इन्द्रवोद्मानमादधौ अमेवाः सर्वाश्चातयम् जहिलक्षाम् चोषधे आशालेकम् विशालेकम् बलासं पृष्ठ्यामयम् त्मानम् विश्वशारदमरहसाञ्जिरस्कारद इन्द्रस्य नाम गृह्णन्तर्षयो जङ्गिणम् धादो देवायम् चक्रर्भे षड्ले विष्कन्धदूषणम् सनारक्षत जङ्गिलोधनपालोधने वा देवा। देवायम् चक्रर्ब्राह्मणा गृहार्दः सङ्घोरम् चक्षः पापकृत्वा न भाम् स्वम् सहस्रदक्षो बोधेन पृथिव्याः पर्यन्तरिक्षात् परे मादेभ्याः परे मा भूतात् परे मोदभव्यात् यः क्रवो देवकृताय हुतो आवृतेऽन्यः सर्वाम्स्तान्विश्वभेषान् जम् सतमारो सर्वारोहणेन सद्यक्ष्मान् रक्षांसितेजा आरो सा आरोहन्वर्चा सा सह मणिन्दुर्नामजातानः श्रृङ्गाभ्या मध्ययन यक्ष्मन्नाथनयनैनम् पात्मादे दत्त्वते ये यक्ष्मा सोऽर्थमहान्तो ये च षड्मिनाः सर्वान् दुर्णा महामणिः शतवारो अनेन शत शतम् वेनानगनयच्छत यक्ष्मानवावपत् दुर्णाम् नः सर्वान् हत्वा वरक्षाम् सिधोनुते हिरण्यसङ्घर्ष न शादपादो अयम् महेः दुर्णाम् नः सर्वाम् श्रृद्वा वर्षाम् च क्रमे शतमहम् दुर्णाम्नेनाम् चन्दसरसाम् तंस्थान। शतम् शतं शस्वन्वतेनाम् शतबालयवारये विरम्बर्चो अग्निना दत्तमागन्भर्गोजस्सहवोजोपयोबलम् त्रयश्चम् सध्याने च वीर्याणिप्रदातु मे पश्चाधेः तन्वा आम् सह वाजामयो बलम् इन्द्रियायत्त्वा कर्माणे वीर्याय प्रदे गृह्णामि तवैराजोत्मा सम्बद्धे नै यक्ष्मा आरुन्धते नैनम् शरथाश्नुते यम्भेषजस्य गुल्कुलासो रर्गन्धाते विश्वम् यस्तस्माद्यक्ष्मा मृगाश्वायि वेदते यद्गुल् गुल्सैन्धमञ्ज्यद्वाप्यासे समुद्रियम् उभयरग्रभन्नामाश्मारिष्ठतादये येतो देवस्त्रायमानः कुष्ठा हिमवदस्परे तत्माणम् सर्वम् नाशय सर्वाश्चया तु हान्याः हा। त्रीरे कुष्ठनामानि नद्यमानो नद्यायोषः नद्यायम् पुरोषा रिषते यस्मै परिब्रवीमिरवासायम् प्रातरथोदिभाः जीवनाम ते माताजीवन्तो नाम ते पिता नद्यायम् पुरोषोरिषत् यस्मै परिब्रवीमिर्वासायम् प्रातरसोदिभाः उत्तमो अस्योषादे नाम नग्माम् जगादामिव व्याघ्रश्वपादामिव नद्यायम् पुरोषोरिषत् यस्मै परिब्रवेमित्त्वा सायम् राजरथो दिभाम्बुभ्याङ्गेरयेभ्यश्च रात्येभ्यः परे त्रजातो विश्वदेवेभ्यः सकृष्ठा विश्वभेदः साकम् सोमे न तिष्ठते रक्मानम् सर्वम् नाशय शर्वाश्च यातु धान्याः अश्वत्थो देवयस्यामिदो तत्रामृतस्य क्षणन्तदःपुष्ठाजायत सकृष्ठा विश्वभेषजः साकम् सोमेन तिष्ठते पत्मानम् सर्वम् नाशय सर्वाश्च यातु धान्याः हिरण्ययेनोराशरद्धिरण्यबन्धनादिवे तत्रामृतस्य अक्षणम् तदः पुष्ठाजायत सकृष्ठा विश्वभेषजः सोमेन तिष्ठते लक्ष्माणम् सर्वम् नाशय सर्वाश्च यातु या धान्याः यत्र लावप्रभ्रञ्जानम् यत्र हिमवदर्शिराः तत्तामृतस्यादक्षानन्दतः पृष्ठोऽजायत स पृष्ठो विश्वभेषजः साकम् सोमे न तिष्ठते लक्ष्माणम् धान्याः गन्त्वावेदपूर्वविश्वाह कोऽयम् वान्याः यम् वावसायमाध्यस्तेनादे विश्वभेषजः शेषलोकम् तृतीया गन्धतन्दर्यस्याहायनः पत्मानम् विश्वधान् कम्बलाः सु जन्मे छत्रम् जगाम विश्वे सृद्देवे सहसंविधानः सन्देधातुमुखहस्पतेः मा नावो मेधाम् मा ब्रह्म प्रमातिष्ठन सुष्यनायोऽयम् स्यन्नद्धमुखाहो सोऽहम् सुमेधावच्छस्ति मा न मेधाम् मानो दीक्षाम् मानोऽहिम् तिष्ठ यत्तपः शिवानः स्याम् स्वन् आयुषे शिवा भवन्तु मातराः मानपि शारदश्विनाज्यो दिश्मदेवमस्तिनः पामस्ते रासतामिषम् भद्रमिच्छन्दय स्वर्वितस्तपो दीक्षामोपदिशे दुरग्रे ततो राष्ट्रम् बलमोजश्च जातम् तदस्मै देवावोपसन्नामन्तो ब्रह्म होता ब्रह्म यज्ञा ब्रह्मणा स्वर्युर्ब्रह्मणो जातो ब्रह्मणो दर्हे देहविः ब्रह्मसृजाहृतवदे ब्रह्मण वेदिरुद्धिता ब्रह्मयज्ञश्चयः विस्तुताः स्मृता यस्वाहा अम् होमुच प्रभरे मेषा मा सुस्त्रादिमावृणाणः गिरविन्द प्रदेहव्यङ्ग्लभाय सत्याः सन् त्वयजामानस्य कामाः अम् होमुचम् वृषभयज्ञानाम् गिराजन्दम् वृष ममभराणा अपाण्डपादमश्विना उमेधिया इन्द्रियेण तेन्द्रियम् भर्त नमोजाः यत्र ब्रह्म वि दोयान्ते देक्षयातपसासः अग्निर्मादत्रा नयत्तमेधान् दधातुमे अग्नये स्वाहा यत्र ब्रह्म वि दोयान्ते देक्षयातपसासः वायम् मादत्रा नयत् वायुः प्राणान् दधातुमे वायवे स्वाहा यत्र ब्रह्म वि दोयान्ते सूर्यो मातत्रालयचक्षुः सूर्योदधातुमे सूर्याय स्वाहा यत्र ब्रह्म विदोयान् वेदेक्षयादवसासः चन्द्रो मातत्रालयदमलश्चन्द्रोदधातुमे चन्द्राय यत्र ब्रह्म विदोयान् सोमो लयदुपयः सोमो दुधातुमे सोमा यस्वाहा यत्र ब्रह्म वि दोयान्ते देक्षयातपासा इन्द्रो मातत्रालयदुफलमिन्द्रो दुधातुमे इन्द्राय स्वाहा यत्र ब्रह्म वि दोयान्ते देक्षयातपासादः आपो मातत्रालयप्रमुपातिष्ठतु ब्रम्हा, ब्रम्हा स्वाहा यत्र ब्रह्मविदोयाम् दे देशयातपासा सह ब्रह्मा मातत्था नयतु ब्रह्मा ब्रह्मा दधातु मे ब्रह्मणे स्वाहा आयोषोऽसि प्रतरानम् विप्रम्भेश च मुच्यसे तदाञ्जनत्वम् सन्शमापोभायम् सर्वम् ते यक्ष्मङ्गेऽभ्यमहि पृथिव्याम् जातम् भद्रम् बोरुषीवनम् प्रात्त प्रामायुगम् रथा ज्योतिमनाकसम् प्राणप्राणन्त्राः यस्वासो अस्रे निरृत्यानः पाशेऽभ्यामम् च सिन्धार्गर्भासि विद्यथाम् पुष्पम् पादः प्राणस्वर्यश्चक्षुर्दिवस्तयाः देवाञ्जनम् त्रैकुलम्बरे मा बाहि विश्वदाः तत्त्वा परञ्चषधयोपाध्याः पर्वतीया उत विदम् मध्यमवासमद्रक्षोऽ अमे वा सर्वाश्चादयन्नाशयादभिभाजितः बह्वे जन्मरुणानुपूरुषः तस्मात् सहस्रवैर्यमुञ्जनः पर्यम् यदा भो अज्ञा ऋणे त्रियुतो तस्मात् सहस्रवैर्यमुञ्जनः पर्यम् मित्रश्च त्वावरोणश्चानुप्रेय दुराञ्जन तौ त्वा अनुगत्य दूरम् भोगाय पुनरोहतु ऋणा ऋणमेव सम्नयन् कृत्याम् नृत्याकृतो गृहम् चक्षुर्मन्दस्य दोर्हार्दपृष्ठेरभेषणाञ्जन यदस्मासो दुःस्मज्ञयद्गोषयच्च नो गृहे अनामहस्तम् च दोर्हार्दप्रयप्रदेमुता अपापोजमोपानर्जातमथे जातवेदसः चतुर्वेरम् पर्वते जङ्गिराञ्जानन्दिशप्रशि चाक्ता शिवास्ते चतुर्वेरम् बध्जताम् जानन्ते सर्वादिशोभयाश्च भवन्तु ध्रुवस्तिष्ठासित विदैवचार्य इमादिशो अभिहारन्द ते फलिम् आक्ष्मेकम् मणिमेकम् कृष्णस्वस्थानाविवेकमेषाम् चतुर्वेदङ्गैहृदेभ्यश्चतुर्भ्यो अग्राह्य बन्धेभ्यस्मान् अर्जमाग्निना वय प्राणाय बाणाय यो शैव समोदय स्वस्तय सुभोदये स्वाहा स्वय सु मा सौम्येनावद प्राणाय पालायाय शैवर्च सरोज शेतेज स स्वस्तये सुबोधये स्वाहा भगो मा भगेनावद प्राणाय पालायायुषेवर्च समोज शेतेज स स्वस्तये सुबोधये स्वाहा ष्ट मम प्रत्ययवद्धा न्यायोषैवर्त्य समो जासे चपला यथास्त्रेतस्वाभिरक्षतो संरक्षन्न प्रमातमस्त्रे मम् मात्वा तभम् प्रणयो यातु न स्वाभिरक्षतुञ्जनप्रहरन्तोन्तो नस्मिन् तत्पर्यादन्तनमथोपनमस्त्रय दस्वाभिरक्षतो इन्द्रस्य त्वावर्मणामरे धावयामोजो देवानामधिराजो बभूव पुनस्तादेव प्रणयन्तु सर्वे श्रेतस्वाभिलक्षतु अस्मिन् मनावेकाशतम् वीर्याणि सहस्रम् प्राणास्मिन्नस्त्रे राघशत्रोऽनभितिष्ठ सर्वाण्यस्वाप्तज्ञानधारस्वस्तेदस्वाभिलक्षतु हृदानुर्लोक्त्वाधो मान्वयस्वान् सहस्रम् प्राणश्रदयो निर्वयो धा शम्भोश्च मयोभोश्चार्जस्वांश्च स्वांश्चास्त्र दस्त्वाभिरक्षतु यथात्मोत्तरोः अस भक्नस्य भक्नाः सजातानामसद्भाषे तथा स्वास विजातरुगस्त्र दस्त्वाभिरक्षतु आरार्थे संव्रज पितरप्रायिधामाभिः दिवसदाम् शिबादे तैष्ठसा द्वेषम् वर्तते तमाह न यस्याः पारन्द्रिशेन यो यो भद्रिश्च मत्स्यान्वेशते यदे जाति हरिष्टादस्तमुर्वितमस्मतिरात्रे पारमासीमहि भद्रेः पारमासीमहि एतेः रात्रिनिचक्षासो भ्रष्टारो नवर्नव उतोते अशेषः सन्त्यष्टावुतो सप्तसप्ततिःश्च षच्चतिपञ्चाशत्पञ्चासुन्न चत्वारश्चत्वारिंशश्च त्रयश्चिंशश्च वाजिने बहु च देविंशतिश्च देहात्येकादशावमाः रे भर्नाद्य वायुभर्नुपाहिरुहितर्दिवः रक्षामाकर्णाघम् जयिषद मानो दुःसम् जायीषद मा नद्यगवान्स्तेनो मावेनामृगा एषद मा श्वानाम् भद्रे तस्कारो मा नृणा यातु धान्याः परमे भजषस्थेनो धारुतो तस्कारः परेण रत्मज्जफलेणघायुसु अन्धरात्रिनिष्टधो मम शेषण हृगश्च जम्भायाश्च न तन्द्रोपदे चि वहि रात्रिवसामसिजाग्रेः गोभ्या नः शर्गच्छाश्च्यः पुरोषेभ्यः अथ याने च यस्माह याने तत्परेण तानि त्वहस्त्वभ्यम् विभावले यत्किञ्चैदम् पतयाति यत्किञ्चैदम् सारे सुपम् यत्किन्तः प्रमाताया सत्त्वम् तस्त्वात्वम् रात्रिवाहिनः सा पश्चात्पा पुरः सोत्तराद धरादु च गोपायानो विभावलिस्तोतारस्त्व स्मासे ये रात्रे मनुतिष्ठन्ति ये च भूतेषु जागृहति रक्षन्ति तेन आत्मसुजाग्रहेन पशुसुजागृहति वेदवैरास्ते नामाधृता तेनामपासि आम् त्वाम् भरद्वाजो वे तु नो वित्ते सुजाग्रहति अश्रभा सुभवासंहृतश्वेनापप्रोद्या वा पृथिवीमाहित्वाश्वान्यरोहर्गम्भेदो वरषेष्ठमरोह्रविष्ठा उषतीरात्र्यनुसा भद्राहिम् तिष्ठद मित्र एव स्वधादेः वर्ये वन्द्येषु भगेषु जात अस्मां स्थायस्वल्याणि जाता सो यानि गव्यानि पुष्ट्या सिंहस्य रात्रिश देपिंसस्य व्याघ्रस्य देपिनो वर्चाद अश्वस्य व्यर्थम् पुरोस्य मायम्बुरो लोपाणि कृणुसे विभाति शिवाेमनुसोर्यन्त हिमस्य माता सुभवानोऽस्तु अश्व स्तोमस्य सुभगे निबोधयेण तावन्त्ये विश्वासु दिक्षु स्तोमस्य नो विभावरिवाराजेव जोषसे असाम सर्ववीराभवाम सर्ववेदसो युच्छन्तेर नोषसाः त्रे हितानाशुतयस्तेनो न विद्यते यत्पुन विद्यते भल्लासे रात्रिकमासो नृष्टौ विश्वम् घोरो पञ्जुवातिर्देहर्षि चक्षुस्पदेशेव वांश्यप्रतिद्याम् दिव्या सख्मा मुग्धाः न अद्य स्थेनायच्च खायो मर्ज रिपोः प्राक्ते तस्य प्रदेज्ञप्रग्वेवात्मशिरोहलत् प्रभरादोनयथाहस्तोनयथाशेषत् यौमानिङ्गय दृशसंविष्टोऽपायते अपायति स्वपायति सुष्ठे स्थानावपायातः अन्धरात्रिदृष्टसो मम शेषाणमहिम् कृणो अक्षौरगश्च निर्जह्यास्तेन चन्द्रोपतेज हि एते रात्रिणर्वा हस्तीक्ष्णा गङ्गास्वाशवाः ते शर्णाद्यपालयच्यते दुर्गादे विश्वः रात्रिम् रात्रिमरिष्यन् प्रष्टरे वदन्वा वयम् गम्भेरमप्लावायि वनताले जनराहदयः यथा साम्याकः प्रपदन्न पवान्नालो लिध्यते एतावाराहत्युक्प्रपादययो अस्माभ्यभायन्ते अपश्चेनम् वासो गोरजवसदश्च अथो योर्वदशिरोभिधायनिषते यद्यारात् त्रिसुभगे विभाजन्त्य योगसो यदेतदस्मान्भोयक्षेदन्नालोपायासिषदेन परे ते सर्वाण्याकसाः उशानो अह्ने आभजातहस्तोभ्यम् विभावलि अयोतोऽहमयोतो महात्मा योतम् मे चक्षुरयोतम् मे श्रोत्रमयोतो मे प्राणोऽतो मे बाणो योतो मे व्यानो योतोऽहम् सर्वाः देवस्य तासविदुःप्रसवेऽस्मिन् बाहुभ्यः सौरज प्रथा मयसीत् स कामकामेन बृहदासयो निराय पोषयमानाय धेः त्वम् कामदाशप्रतिष्ठा सहासहीयत् त्वमग्रेणाशहासहिस्सह मोदो यमानाय धेः दूराच्चागमानाय प्रविपाणायार्क्षाय आस्मा सन्मन्नाशात् कामेन स्वाहा कामेन म कामागामहृदय हृदयम् परि रदामिषा नमनस्तदयितो पामामिह यत्कामकामयामानायुतम् कर्मसि ते हविः अन्नः सर्वम् नमनभ्य कामथैतस्य हविशोमेः कालोऽश्वा वहति अप्तरस्य सहसाक्षाजरो भोरे हन्ति कवयो विपश्चिदस्तस्य चक्राभुवनानि विश्वा सप्तचक्रान्वहति काल एक सप्तास्य अनाभेरमक्षः चैवा पूर्णः कुम्भोऽधिकालाहेतस्तम् वै पश्यामो बहुधा न सन्दः स इमाविश्वाभुवनानि प्रत्यम् कालम् तमाहुः परामेभ्यो मन् स एव सम्भुवनान्याभवत्स एव सम्भुवनानि भर्ययेत् पिता सन्नाभवत्पुत्र येषाम् तस्माद् नान्यत्परमस्ते च कालो ओमोञ्जिलामजुलयत्काल इमा प्रशिबे सुत कालेह भूतम् भव्यम् चेशितम् हवित्तिष्ठते कालो भूते वसृतकाले च पतिसौर्याः काले हंसा भूतानि काले चक्षुर्विपश्यते काले, काले मदःकाले प्राणःकाले नाम समाहितम् कालेः सर्वानन्दज्यागतेन प्रजाहिमाः काले तपः प्रजा काले ज्येष्ठम् काले ब्रह्म समाहितम् कालोह सर्वस्य स्वरो यः विनाशेत् प्रजापतेः तेनेः शिवम् तेन जातम् तदुतस्मिन्वधिष्ठितम् कालोह ब्रह्म भूत्वा विभर्ति परमेष्ठिनम् कालः प्रजासुत कालोऽग्रे प्रजापादिम् स्वयम्भोः कश्चपः कालात् प्रपत्कालादाजायत कालादापश्चमभवन् कालाद्ब्रह्म काला त बोधिषाः कालेनो देहे दुशोर्यः काले कालेह भूतम् भव्यम् च भूत्वा जनयत्पुराः कालादज समभवन्त्य कालादजायत कालयज्ञम् समेरयम् देवेभ्यो भागमक्षीतम् काले कन्धर्वात्सरदः काले लोका प्रतिष्ठिताः काले एजमङ्गेरादिवोधर्वाजाधितिष्ठतः यमम् च लोकम् परमम् च लोकम् पुण्यांश्च लोकान् विधयतेश्च पुण्याः सर्वा लोकानाभिषध्य ब्रह्मणा कालस्वीयते परमो देवः रात्रिम् रात्रिमप्रायातम्भरन्तोऽ दे स्वाहाय वदश्च प्रेघासमस्मै प्रायस्पोषेण समिषामतरम् गोमाचे अग्ने देवेषा विषाम दे सौर्यातैष सादयेषादया न कायस्पोषेण समिषामतम् तोमादे अग्ने प्रतीवेशादिशाम सायम् सायम् गृहपाशर्णा अग्नि प्रातप्रादः सौमनहस्य दाता वसार्वसार्वसुधाना येधि वयम् त्वेन धा न प्रातः प्रातग्रहपायम् सायम्भोपनाशस्य दाता वसौर्वसौर्वसुधान्धानास्त्वाशतम् हीमानधेम पश्चादग्धान्नश्च भूयासम् अन्नादयोऽन्नपतये मुद्राय नमो अग्नयेः सभ्यः सभाम्मेः बाह्य च सभ्याः सभासदाः त्वमिन्द्रापुरोहो जैश्वमायोग्यश्च अहरहत्मनिमित्ते हन्तो श्वायेव ते जातमग्ने यमस्य लोकादध्याप भोविधप्रमदानध्यात्मयो नक्षिभिः ये काकिना सर्वथैयासि विद्वान्स्वप्नम् विमानोऽसोरस्य योनौ बन्धस्वाग्रे विश्वजायापश्यद् पुनरात्यारेके अह्ने तव स्वप्नेदध्यापोपितभिदर्भ्यरूपमपूहमानाः रहद्रावासो रेभ्योऽधिदेवानुपावर्ततमहिमानमिच्छन् तस्मै स्वप्नाय सोराधिपत्यन्वयसिंहासस्वराजशानाः नैताम् वेदुक्सेवा येषा न्यल्पेश्वरत्यन्तरेण कृते स्वप्न्यामदधुराप्येन नादित्या स्वरुणेनामोऽशिष्टाः यस्य क्रोरमाभयम् च सुकृतो स्वप्नेन सुमृत पुण्यमायोः स्वदशिवरामेण बन्धुना दप्यमानस्य मनशोरेण विद्वचयसर्वास्प्रेयाः पुरस्ताद्विद्वस्वब्दयोशस्विना नयशेहवाख्याराद्विषयभिरवजादिदूरम् यथा कणाय यथा शफ्यथ ऋणम् सन्नयन्ते एवादस्वध्यम् सर्वमप्रेयसम् नयामसे सम्राजाः नागुःसमणान्यगुः सङ्गुष्ठाः गुः सङ्कलाः गुः समस्मरसु यद्दुष्वप्नम् निर्द्वेषुष्वप्नम् सुवाम देवानाम् पत्नीनाम् गर्भागमस्य राजो भद्रस्वप्नः सममाजः पापश्च द्वेषते प्रहिन्नः मातृष्ठा नाम अनन्ताः स्वप कायमश्वायव नीनाहम् अनास्माकम् देव पेयम् विवाहम् वपयदस्मासो दुःस्वभ्ये यद्वोषयच्च मम गृहे अनास्माकस्तद्देव पेयम् विवाहम् निष्ठमेव प्रतिमुञ्चपात् महारत्नेन वा, वा, वा, वा प्रति नावा नावा मया अस्माकम् तदस्पदे दुःस्वन्यम् सर्वम् विषय निर्दयामसे ऋतश्च ज्योतिषमनः सुदेवासंवत्सरम् भविष्या वर्धयन्ते स्वच्छ प्राणोच्छिन्ना अस्वच्छिन्ना वयमायोषो वर्चः उपास्मान्प्राणोपायतामुपमयम् प्राणम् भवामहे वर्चा जग्राहपृथिव्या आन्तरिक्षम् वर्धस्वृहस्पदर्थत्वा वर्चसोऽध्या वा पृथिवी सङ्ग्रहणीव भवच्चो गृहेष्व पृथिवीमनुसञ्चरेम यशसाङ्गभो गोपतिमुपतिष्ठन् जायते गृहेष्व पृथिवेमनुसञ्चरेम वजन्द्रलध्वम् सहि वा नृथूनि पुरक्रणध्वमा यामा वस्तु यज्ञश्च चक्षुप्रभर्मुखम् च वाता श्रोत्रे निमै यज्ञम् विधातम् विश्वगा हदेवायम् सुमनस्य मानाः देवानामृत्युदाये च यज्ञयाहेभ्यो हव्यम् हेदे भागधेयम् यज्ञम् अपत्येभिरेतिलावन्तो देवास्तमेषा मादयन्ताम् त्वमज्ञे व्रतः श्रीदेवावज्ञेष्मा त्वं यज्ञेष्मेभ्यः यद्वा वयम्ब्रामिनामो व्रतानि विदुषान्यद्वावदुष्टरासः अर्जश्च विश्वादाव्रणादि विद्वांसो वश्चयो ब्राह्मणा आविवेश आदेवानामपिबन्धा मगन्मयच्छोढुम् अर्जविद्वांस यात्सयद्भव दासोद्भरांसोऽङ्गल्पयादि वाङ् वा आस्यन्न प्राणश्चो रक्षाश्रोत्रम् कर्णयोः अबलिताकेशासो नो बलम् ऊर्वोरोजङ्घयोर्जवपादयोः प्रतिष्ठालिस्थानि मे सर्वान्मातिपृष्ठ तनोस्कन्वा मे सहे सर्वमायोदशीय श्योनम् मे शीलपुरप्राणस्वपवमानस्वर्गे प्रियम् मा कृणो देवेषु प्रियम् राजेषु मा कृणो प्रियम् सर्वस्य पश्यतोतश्रूत्र उदार्ये उच्चश्च ब्रह्मणस्वते देवान्यज्ञेन बोधय आयुः प्राणम् प्रजाम् अशोन्त्येर्मि यजामानम् च वर्धय अज्ञे समिधा महार्गम् भ्राते जातवेदसे समे श्रद्धाम् च मेधाम् च जातवेदा प्रयच्छतु विघ्ने रत्ता जातवेदः समिधा वर्धयामसि तथा त्वमस्मान्वर्धय प्राजया चाधनेद च यदज्ञेयानि कानि च्युता ते दारोणि दध्वसि सर्वम् ददस्तु मे शिवम् दज्योषस्वयमिश्च एतास्ते अग्ने समिध स्वामिद्धांसो समिद्धाम आयोरस्मादोधे ममाचार्याय हरिः सुवर्णोदिवमारोहोऽर्तिषाये तारिप्सम् विवरमुत्सदन्तम् अवराञ्ज हिहर सा जातवेदोर्विभ्यः दुर्गार्ति साजिवमारोहसूर्य अयोजालाहसोरायो यस्पये पाशैरङ्गिलायतरन्ति पांस्तेरन्धयामिहरसा जातवेदः सहस्ररुष्टिः सपत्नान् प्रमृणन् बाहिवज्जाः पश्येम शरदः शरम् जीरेम शरदः शरम् बुद्धेम शरदशतम् रोहेम शरद शतम् ऊषेम शरद शतम् भवेम शरद शतम् भूयेम शरद शतम् भूयासे शरदशतात् अव्यासश्चव्यासदश्च विलम्बिस्यामि मायया काभ्यामुद्धत्य ष्ठजेव्यासम् सर्वमायुर्वेव्यासम् उपजीवास्थोपजेव्यासम् सर्वमायुर्वेव्यासम् सञ्जीवास्थ सञ्जेव्यासम् सर्वमायुर्व्यासम् केवलास्थ देव्यासम् सर्वमायुर्वेव्यासम् सर्वमाहिर्जीव्यासम् सुरामया व्रदवेदमादाः प्रचोदयन्ताम् पावमानीम् विजानाम् आयुः प्राणम् प्रजाम् पशुम् कीर्तिम् द्रवेणम् ब्रह्मवर्चासम् मह्यम् दत्त्वाव्रजदब्रह्मलोकम् यस्मात्कोशादुतभारामवेदम् तस्मिन्नन्तरवयेन कृतमिष्टम् ब्रह्मणो विचेन तेन मादेवास्तपासावतेः